श्रीहरये नमः अत त्रयोदशोऽध्यायः सूत उवाच यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति देव्यैस्तवैः वेदैशाङ्कपथक्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विधुः शुराशुरगणा देवाय तस्मै नमः वृष्टेभ्राम्यत् अमन्तमन्धरगिरिग्रावाग्रकण्टूयनान् नेत्रोलाकमटाकृतेर्भगवतः श्वासा निलाभान्तु वः यः संस्कारकलानुवर्तनवसात् वेलानिबेनाम्भसां यातायातमतृतं जलनितेर्न अद्यापि विश्रां यथीम् पुराणसङ्ख्यासम्भूतिम् अस्य वाच्य प्रयोजने दानं दानस्य महात्म्यं पाठादेश्च निबोधत ब्राह्मकं दश पाद्मं पद्मं पञ्चोनषष्टि च श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति दशाष्टौ श्रीभागवतं नारदं पञ्चविंशतिः मार्कण्डं नववाह्न च दश पञ्च चतुश्शतं चतुर्दश भविष्यं शात्यता पञ्चसदानि च दशाष्टौ ब्रह्मवैवर्थं लिङ्गमेकादशैवतु चतुर्विंशतिवाराहं एकाशीतिसहस्रकं स्कान्दं सतं तथा वामनं दशकीर्तितं कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश एकोनविंशत्सौ पर्णं ब्रह्माण्डं द्वादशैवतु एवं पुराणसन्तोहश्चतुर्लक्षमुदाहृतः तत्र अष्टादशसाहस्रं श्रीभागवतमिष्यते इदं भगवता पूर्वं ब्रह्मणेनापि पङ्कजे स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितम् आदिमध्यावसानेषु वैराग्याया न संयुतं हरिलीला कथाव्रात अमृतानन्दितसत्सुरम् सर्ववेदान्तसारं यत् ब्रह्मात्मैकत्वलक्षणं वस्त्वद्वितीयं तन्निष्टं कैवल्यकप्रयोजनम् प्रौष्टपद्यां पौर्णमास्यां हेम सिंहसमन्वितं दधाति यो भागवतं याते ते परमां गतिं राजन्ते तावधन्यानि पुराणानि सतां गणे यावन्त दृश्यते साक्षात् श्रीमद्भागवतं परं सर्ववेदान्तसारं हि श्रीभागवतमिष्यते तदृशामृततृप्तस्य नान्यत्र स्याद्रति क्वचेत् यथा गङ्गा देवानाम् अच्युतो यथा वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा क्षेत्राणां चैव सर्वेषां यथा तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः श्रीमद्भागवतं पुराणम् अमलम् यद्वैष्णवानां प्रियम् यस्मिन् पारमहंस्यमेकम् अमलम् ज्ञानम् परम् दीयते तत्र ज्ञानविराग भक्तिसखितम् नैष्कन्यम् आविष्कृतम् तत् शृण्वन् विपठन् विचारण परो भक्ता विमुच्ये नरः कस्मै येन विभासितोऽयम् अतुलो ज्ञानप्रदीपुरा तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यतस्तच्छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहे नमस्तस्मै भगवते वासुदेवाय साक्षिणे यगिदं कृपया कस्मै चक्षे मुमुक्षभे योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे संसारसर्पधष्टं यो विष्णुरातममुचत् भवे भवे यथा भक्ति पादयोस्तव जायते तथा कुरुष्व नातस्त्वं नो यतः प्रभो नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनं प्रणामो दुःखसमनस्थं नमामि हरिं परं नाम यस्य सर्वपापप्रणासनं प्रणामो दुःखसमनस्थं नमामि हरिं परम् इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसाखस्यां पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः इति द्वादशस्कन्धे समाप्त्वा सम्पूर्णो अयं ग्रन्थः राधे कृष्ण त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्प्यते तेन त्वङ्कृकमले रतिं मे यश्च शाश्वतीं त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सहा त्वमेव त्वमेव विद्याद्रविणं त्वमेव त्वमेव सर्वं मम देवदेव श्रीहरये नमः श्रीहरये नमः श्रीहरये नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज की जै